श्री श्रीहर नम अथ सप्तशोध्याय मैत्रेय उवाच निसंज्ञ आत्मभुवा कारणं सङ्गयोजिताः ततः सर्वेण्यवर्तन्त त्रिधिवाय दिवौकशः दितिस्तु भर्तुरादेशात् अपत्यपरिशङ्किने पूर्णे वर्षसते पुत्रौ प्रसुषुवे उत्पाता भगवस्तत्र निपेतोर्जायमानयोः दिवी भुव्यन्तरिक्षे च लोकस्योरुभयावहा सहाचलाभुवश्चेलोर्दिशः सर्वा प्रजज्वलुः सोल्काश्चासनयः पेदो केतवश्चार्तिहेतवः वभौ वायुसुधुस्पर्श भूत्कारनीरयन्मुहुः उन्मूलयन्नगपतिन् वाद्यानिको रजोध्वजः उद्दसत्तडितं भोदघटया नष्टभागणे व्योम्नि प्रविष्टतमसानव्यादृश्यते पधं शुक्रोश विमनावार्धेर् ऊर्दुमिक्षुभितो धरः सोदपानाश्च सरितश्चो स राह्वो सशिशूर्ययोः निर्घाता रथनिर्ह्राधा विवरेप्य प्रजज्ञिरे अन्तर्ग्रामेषु मुकतो ममन्त्यो भग्निमुल्भणं सृगालो लूकढङ्कारे प्रणेधुरशिवं शिवाः सङ्गीतवत्रोधनवत् उन्नमय्य शिरोधराम् यमुञ्चन् विविता वाचो ग्रामसिक्मास्ततस्ततः कराश्च कर्कशैक्षत् कुरैर्ग्नन्धो धरातलं कार्कारररभसामत्ता पर्यधा वन्वरूतसः रुदन्तोरासभद्रस्तां नीडातपतन् कृन्मूत्रमकुर्वथ गावोऽत्र सन् अश्रुग् दोहा तो यधापूय वर्षिणः व्यरुधन् देवलिङ्गानि द्रुमाभेतुर्विनानिलम् ग्रहान् पुण्यतमानन्ये बगणांश्चाभिदीपिताः अतिचेरुर्वक्त्रगत्या युयुद्धुश्च परस्परम् दृष्ट्वा न्यांश्च महोत्पातान् अतत्तद्वितः प्रजाः ब्रह्मपुत्रान् ऋते भीता मेनिरे सहसा व्यजमान् आत्मपौरुषः ववृधा दिवि स्पृशौ हेम किरीटकोटिभिर्निरुद्धकाष्ठौ स्फुरधं गधा भोजौ गां यः प्राक् स्वदेहात् यमयो अजायत तं वै हिरण्यकशिपुंविधो प्रजायः तं हिरण्याक्षमसुतसाग्रतः चक्रे हिरण्यकशिपोर्ब्रह्मवरेण च वशेषपालान् लोकान् स्त्री न कुतो मृत्युरुद्धतः हिरण्याक्षोऽनुजस्तस्य प्रियप्रीतिक्रधन्वहं गतापाणिर्दिवं यातो युयुत्सुर्मृगयन् ऋणं तं वीक्षुःसगजवं रणत्काञ्चननूपुरं अंसन्न्यस्तमहागदं मनोवीर्यवरोत्सिक्तम् अशृण्यं मकुतो भयं भीतानि लिलिरे देव हस्तार्श्यस्त्रस्तायि वाहयः स दैत्यराट् सेन्द्रान् देवगणान् तथो निवृत्क्रीडिष्यन् गम्भीरं बीमनिस्वनं विजागाहेमकासत्वो वार्धिं मत्तयिभद्विपः तस्मिन् प्रविष्टे वरुणस्य सैनिका यथोगणा सन्नधियः स साध्वसाः अहन्यमाना अपि तस्य वर्चसा प्रदर्शिता धूरतरं प्रधुतृभुः सवर्षभूकानुदधौ महाबल चरन्महोर्मीन् स्वसने ऋतान्मुहुः मौर्व्याभिजज्ञे मासे दिवां स्तादपुरीं यदो यथोगणानां वृषभं प्रचेतसं स्मयन् प्रलब्धुं प्रणिबत्य नी च वज्जागथ मे दैत्यधिराजसंयुखम् त्वं लोकपालो दिपतिर्ब्रहश्वा वीर्योपहो दुर्मध्य वीरमानिनां विजित्य लोके किल दैत्यधानवान् यत्राजसूयेन पुरा यत्प्रभो स मधेन विद्विष दृडं प्रलब्धो भगवानपां पतिः रोषं समुत्तं समयन् स्वया व्यवोचदंगोपसमं व्यवोचदङ्गोपशमं पश्यामिनान्यं पुरुषात्पुरातनात। यः संयुगे त्वां रणमार्ग कोविधम् आराधयिष्यत्सुरर्षबेहितं मनस्विनोऽयं गृणते भवादृशाः तं वीरमाराभत्य विस्मय सहिष्य सेवीरसये स्वभिर्व्रतः असतां प्रशान्तये रूपाणि दत्ते सदनुग्रहेश्चया इति श्रीमद्भगवते महापुराणे तृतीयस्कन्ते हिरण्याक्षदिग्विजये सप्तदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहाराज कि जै